अथ चतुःसप्ततितमः सर्गः तयोस्तदासादितयोरणाग्रे मोह सैन्यम् हरियूथपानाम् सुग्रीव नीलाङ्गदजाम् भवन्तो न चापि किञ्चित् प्रतिपेदिरेते ततो विषण्णम् समवेक्ष्य सर्वम् विभीषणो बुद्धिमताम् वरिष्ठः उवाच शाखा मृगराज मा विषादकालो यदार्य पुत्रौ ह्यवशौ विषण्णौ स्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्र जितास्त्रजालैः तस्मै तु दत्तम् परमास्त्रमेतत् स्वयम्भु वा तन्मानयन्तौ युधिराजपुत्रौ निपातितौ ब्राह्मस्त्रम् ततो धीमान् मानयित्वा तु मारुतिः विभीषणवचः श्रुत्वा हनूमानिदमब्रवीत् अस्मिन्नस्त्रहते सैन्ये वानराणाम् तरस्विनाम् यो यो धारयते प्राणाम् स्तम् तमाश्वासयामहे उल्काहस्तौ तदारात्रौ रणशीर्षे विचेरतुः भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः स्रवद्भिः क्षतजम् गात्रैः प्रस्रवद्भिः समन्ततः पतितैः पर्वताकारैर्वानरैरभिसंवृताम् शस्त्रैश्च पतितैर्दीप्तैर्ददृशातेव सुन्धरा सुग्रीवमङ्गदम् नीलम् शरभम् गन्धमादनम् जाम्बवन्तम् सुषेणम् च वेगदर्शिनमेव च मयीन्दम् नलम् ज्योतिर्मुखम् द्विविधम् चापि वानरम् विभीषणो हनूमांश्च ददृशा ते हतान्नृणे सप्तषष्टिर्हताः कोट्यो वानराणाम् तरस्विनां। अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः सागरौघनिभम् भीमं दृष्ट्वा बाणार्दितम् बलम् मार्गतेजाम्बवन्तम् च हनूमान् स्वभावजरया वृद्धं वृद्धम् प्रजापतिसुतं प्रजापतिसुतम् शाम्यं तमिवपावकं पावकम् दृष्ट्वा समभिसङ्क्रम्य पौलस्थ्यो वाक्यमब्रवीत् कच्चिदार्यशरैस्तीक्ष्णैर्न प्राणाध्वंसितास्तव विभीषणवचः श्रुत्वा जाम्बवान् वृक्षपुङ्गवः कृच्छ्रादभ्युद्गिरन् नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये विद्धगात्रश्चितैर्बाणैर्नत्वाम् पश्यामि चक्षुषा अञ्जनासु प्रजायेन मातरिश्वा च सुव्रता हनूमान् वाणर श्रेष्ठः प्राणाम् धारयते आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् नैव राजनि सुग्रीवे नाङ्गदेनापि राघवे आर्यसन्दर्शितस्नेहो यथा वायुसुते परः विभीषणवच श्रुत्वा जाम्बवान् वाक्यमब्रवीत् शृणुनैरतशार्दूल पृच्छामि मारुतिम् अस्मिन् जीवति वीरे तु हतमप्यहतम् बलम् हनूमत्युज्झित प्राणे जीवन्तोऽपि मृता वयम् धरते मारुतिस्तातमारुतप्रतिमो यदि वैश्वानरसमो वीर्ये जीविताशा ततो भवेत। ततो वृद्धमुपागम्य विनयेनाभ्यवादयत् गृह्यजाम्बवतः पादौ हनूमान्मारुतात्मजः श्रुत्वा हनूमतो वाक्यम् तदा विव्यथितेन्द्रियः पुनर्जातमिवात्मानम् मन्यते स्मर्क्ष पुङ्गवः ततोऽ्रवीन् महातेजा हनूमन्तम् सजाम् भवान् आगच्छ हरिषार्दूल वानराम् स्त्रातुमर्हसि नान्यो विक्रम पर्याप्तस्त्वमेषाम् परमः सखा त्वत्पराक्रमकालोऽयम् नान्यम् पश्यामि कञ्चन वृक्षवानर वीराणामनीकानि प्रहर्षय विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ गत्वा परममध्वानमुपर्युपरि सागरम् हिमवन्तम् नगः श्रेष्ठम् हनूमन् गन्तुमर्हसि ततः काञ्चनमत्युच्छवृषभम् पर्वतोत्तमम् कैलासशिखरम् चात्र शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् सर्वौषधियुतम् वीरद्रक्ष्यस्योषधिपर्वतम् तस्य वानरशार्दूलचतस्रो मूर्ध्नि सम्भवाः द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश मृतसञ्जीवनीम् चैव विशल्यकरणीमपि चैव सन्धानीम् च महौषधीम् ताः सर्वाः नुमन् गृह्य क्षिप्रमागन्तुमर्हसि आश्वासय हरीन् प्राणैर्योज्य गन्धवः आत्मज श्रुत्वा जाम्बवतो वाक्यम् हनूमान्मारुतात्मजः आपूर्यतबलोद्धर्षैर्वायुवेगैरिवार्णवः स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम् हनूमान् दृश्यते वीरोद्वितीय इव पर्वतः हरिपादविनिर्भग्नो निशसादसपर्वतः न शशाकतदात्मानम् वोढुम् भृश निपीडितः तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः शृङ्गाणि च व्यशीर्यम् तस्मिन् सम्पीड्यमाने तु नशे कुर्वाणरास्थातुम् घूर्णमाने न गोत्तमे सा लङ्कात्रासाकुलारात्तौ प्रणृत्तेवाभवत्तदा पृथिवीधर सङ्काशो निपीड्य पृथिवीधरम् पृथिवीम् क्षोभयामाससार्णवाम् मारुतात्मजः आरुरोह तदा तस्माद्धरिर्मर्मलयपर्वतम् मेरुमन्दर सङ्काशम् नानाप्रस्रवणाकुलम् नानाद्रुमलताकीर्णम् विकासि कमलोत्पलम् सेवितम् देवगन्धर्वैः षष्टि योजनमुच्छ्रितम् विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् नानामृगणाकीर्णम् बहु गन्धरशोभितम् सर्वानाकुलयम्स्तत्र यक्ष गन्धर्वकिन्नरान् हनूमान्मेघसङ्काशो बवृधे मारुतात्मजः पद्भ्याम् तु शैलमापीड्य वड वा मुखवन्मुखम् निवृत्त्योऽग्रम् ग्रम्न नादोच्चैस्त्रासयन् रजनीचरान् तस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम् लङ्कास्था राक्षसव्याघ्रा नशे कुस्पन्दितुम् क्वचित् नमस्कृत्वा समुद्राय मारुतिर्भीम राघवार्थे परम् कर्म समीहत परम् विवृत्यव बड़ मुखा भमा पु प्लुबे व्यों चंड वेगृक्ष खंडास्तर सा जहारशलाछिलाकृत बानरां बेगोद्रणुन्ना वे क्षीण वेगा सलिले निपेतु प्रसार्यो रग भोग भुजौ भुजंगारि निकाश वी जगामशैलं शैलम् नगराजमग्र्यम् दिशः प्रकर्षन्निव वायुसूनुः स सागरम् घोर्णित बीचिमालम् तदम् हसा भ्रामित पक्षिगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि स्फीताञ्जनाम्स्तानपि सम्प्रवीक्ष्य जगामवेगात् पितृतुल्यवेगः आदित्यपथमाश्रित्य जगामस गतश्रमः हनूमाम् स्वरितो वीरः पितुस्तुल्यपराक्रमः जवेन महता युक्तो मारुतिर्वातरम् हसा जगामहर्षार्दूलो दिशः शब्देन नादयन् स्मरञ्जाम्बवतो वाक्यम् मारुतिर्भीम विक्रमः ददर्श सहसा चापि हिमवन्तम् महाकपिः नानाप्रस्रवणोपेतम् बहु कन्दर निर्झरम् श्वेताभ्रचय सङ्काशैः शिखरैश्चारु दर्शनैः शोभितम् ददर्श पुण्यानि महाश्रमाणि सुरर्ष सङ्गोत्तम सेवितानि सब्रह्म कोशम् रजतालयम् च शक्रालयम् रुद्रशर प्रमोक्षम् हयाननम् ब्रह्म शिरश्च दीर्तम् ददर्श वह्न्यालयम् वैश्रवणालयम् च सूर्यप्रभम् सूर्य निबन्धनम् च ब्रह्मालयम् शङ्कर कार्मुकम् च ददर्शनाभिम् च वसुन्धरायाः कैलासमग्र्यम् हिमवच्छिलाञ्च तम् वै वृषम् काञ्चन शैलमग्र्यम् प्रदीप्त सर्वौषधि सम्प्रदीप्तम् ददर्श सतम् समीक्ष्याणलराशिदीप्तम् विसिस्मि एवासवदूतसूनुः आप्लुत्यतम् चौषधि पर्वतेन्द्रम् तत्रौषधीनाम् विजयम् चकार स समतीत्य महाकपिः दिव्यौषधिधरम् शैलम् व्यचरन् मारुतात्मजः महौषध्यस्ततः पर्वतसत्तमे विज्ञायार्थिनमायान्तम् ततो जग्मुरदर्शनम् सता महात्मा हनुमान पश्यंश्च कोऽपरोषाच्च भृशम् ननादा अमृष्यमाणोऽग्निसमान चक्षुर्मही धरेन्द्रम् तमुवाच वाक्यम् किमेतदेवम् सुविनिश्चितम् ते यद्राघवेनासि कृतानुकम्पः पश्चाद्य मद्बाहुबलाभिभूतो विकीर्णमात्मान मथो नगेन्द्र सतस्य शृङ्गम् स नगम् स नागम् धातु सहस्रजुष्टम् विकीर्ण कूटम् ज्वलिताग्रसानम् प्रगृह्य वेगात् सहसोन्म माथा सतम् समुत्पाट्य खमुत्पपात वित्रास्य स संस्तूय मन खचरने कई गेगाडो अग्रेग स भास्करध्वान मनु प्रपन्न स्तम भास्कंशिखर प्रगृह्य बहो तदा भास्कर सन्नीका शौर समी प्रतिभास्करा भेन भा। शैलम्र राजज शैलोपमो गंधवत्मजस्तू सहस्रधारेण सपावकेन पावकेन चक्रेण खे विष्णुरिवार्पितेन तम् वानराः प्रेक्ष्य तदा विने दुःसतानपि प्रेक्ष्य मुदाननादा तेषाम् समुत्कृष्टरवम् निशम्यलङ्कालया भीमतरम् विनेदुः ततो महात्मानि निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणम् तत्र च स स्व जे सः तावप्युभौ मानुष राजपुत्रौ तम् तदा विशल्या बुत्तस्थुरन्ये च हरिप्रवीराः सर्वे विशल्या विरुजाः रक्षणेन हरिप्रवीराश्च हताश्च ये स्युः गन्धेन तासाम् प्रवरौषधीनाम् सुप्ता निशान्ते श्विव सम्प्रबुद्धाः यदा प्रभृति लङ्कायाम् युध्यन्ते हरिराक्षसाः तदा प्रभृतिमानार्थमाज्ञया रावणस्य च येहन्यन्ते हन्यन्तेरणे तत्र राक्षसाः कपि कुञ्जरैः हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ततो हरिर्गन्धवः आत्मजस्तु तमोषधीशैलमुदग्रवेगः निनाय वेगाद्धिमवन्तमेव रामेण समाजगामः इत्यादृशे श्रीमद् रामायणे वाल्मीकीये युद्धकाण्डे चतुःसप्ततितमः सर्गः